गणेशपुराणं क्रीडाखण्डम् अध्यायं फो व्यास उवाच देवान्तकस्य चरितं श्रुतं भक्त्या तवाननाद इदानीं वदमे मे ब्रह्मन्नरान्तक विचेष्टितं क उवाच शृणुष्वहितो ब्रह्मन् सम्यक् सत्यवतीसुत कथयिष्येधुना तत्तु दृष्ट्वा ते परमादरं नरान्तकोमखीं गत्वा नाना दैत्यगणान्वितः चकारकदनं राज्ञां मारयामास काश्चन सर्वे तं शरणं यादा दृष्ट्वा राज्ञो हतान् बहून् यद्यत् सैन्यं पश्यति स्म तत्तद्व्यादिशो दश यथा ज्ञानेन च ज्ञानम् यथा सूर्योदये तमः एवम् भूमण्डलम् सर्वम् वशे चक्रे नरान्तकः ये दूतम् चरणम् यादास्तदीयत्वात् ये हतास्तत्सुधास्तेन स्थापिताः करदाकृदाः यदु युद्धोद्यदा भूपास्तेऽपि सेवाकृतोऽभवन् uh -huh. तेषां पदेशु दैत्यान् सोऽस्ताप यत् स्वस्य सम्मतान् पालयामास पृथिवीं समुद्रवलयाङ्गिताम् आदङ्गभारसन्तप्ता देवदानवकिन्नराः मुनयो ह्युर्गिरिगुहां यज्ञस्वाध्यायवर्जिताः वेदत्यागस्य दोषेण मनसा चाभ्यसं श्रुतीः आदङ्गाक्रान्तमनसो न तपस्यां च चक्रीरे ततो नरान्तको दैत्यान्नागलोकजिगीर्षया प्रास्तापयत् सुबलिनो ना मया विशारदा तेता सं बभक्षुरगौतमा असंख्या भक्षिताद शेषो यौ पुरा मुक्ताफला रहा नागांगनायुध अनेक दिव्य वस् प्रगृहय ऋचिरा सह तानि सर्वाणि त्यत्वैव सामचक्रे सुरैः सह शासनं परिजग्राह नरान्तकः समीरिदं करभारं वार्षिकं स स्वीचक्रे नन्दशीर्षका तथापि दैत्यस्तत्राप्यस्तापयद्दैत्यपुङ्गवम् अनेक दैत्य अनेकदैत्यसहितं सार्वाध्यक्षं रसातले आज्ञापयामास च तम् तत्रस्थं स नरान्तकः यदैव विकृतिम् पश्ये रुरगाणाम् तथैव नः दूतमुखासूजयस्व हनिष्यामो खिला नहीन् युद्धम् शिक्षाप्यदम् ते दु दैत्या सर्वे नरान्तकम् मृत्युलोके स्थितं यादा वृत्तान्तं सर्वमब्रुवन् नरान्धकः सदा प्रेषीन् मृत्युपादालोकजं देवान्धकाय वृत्तान्तं सर्वस्य यमनुष्ठितम् उपाह्यनानि सर्वाणि स्वर्लोके दुर्लभानि च देवान्तकोधाः प्रैषीत्तं दुर्लभं यच्च भूतले एवं त्रैलोक्यराज्यं तौ चक्रादे परयामुदा मुदा सोमकान्त उवाच कथमेद कूपेण ते के शस्त्रेण अवतारेण कृगुर्वाच यमे कृत प्रश्नो व्यासोचे चुर्मुख यां याम परीतम परया ब्रवीम्य हम क उवाच दुर्जयौ वरगर्वौ तौ येन रूपेण खादितौ येनावतारेण मुने येन शस्त्रेण चास्त्रतः सम्प्राप्ता ब्रह्मणा लोका देवाश्च स्वपदे तत्सर्वं कथयिष्यामि सादरं श्रूयता मुने इति श्रीमदादि श्रीमन्महागणेशपुराणे क्रीड़ाकंडे ओम।